मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 25 मत्सरासुरसेनावर्णनं श्रीगणेशाय नमः मुद्गल उवाच कथां पापप्रणाशिनीं वक्रतुण्डावतारस्य प्रयोजनविकाशिनीम् दैत्या सम्भूय सर्वे ते गता शुक्रं महामुनिं दण्डवत्तं प्रणेमुश्च मत्सरेण समन्विताः शुक्रस्तान् मानं यामास किमर्थं यूयमागताः भवदा कार्यसिद्धिर्या तां करिष्यामि यत्नदः शुक्रस्य वचनं श्रुत्वा सुधारससमं मुने हर्षिताः प्रणिपत्यैनमुचुः सर्वे हितावहं तव स्वामिन्प्रसादेन मत्सरकुलधारकः अस्माकं सर्वभागस्य भलरूपस्तथा कृतः वरान् प्राप्यमः बाहुरस्माकं हितमाश्रितः दैत्यानां दानवादीनां राजा यमिति निश्चितम् तस्य राज्याभिषेकार्थं याहित्वं सर्वमानद अस्माकं धाम सर्वस्वं त्वमेव मुनिषत्तम दैत्यानां वचनं श्रुत्वा शुक्रो वादी तथेति अगमत् राज्यलाभार्थं मत्सरस्य दुरात्मनः मिलितास्तत्र सर्वे ते दैत्यदानवराक्षसाः हर्षेण महदा युक्ता महोत्सवपरायणाः तेषां मुख्यान् महाभागां तान् प्रजापदे सङ्क्षेपेण प्रवक्ष्यामि प्राधान्येन महत्तमान् न मुच्चित् शम्भरः शुम्भो विरोचनो विप्रचित्तिः प्रह्लादो महिषासुरः अन्धकासुरनामा च रुरुदैत्यप्रतापवान् इत्याद्या दैत्या, इत्या दैत्या मिलितास्तस्य चोत्सवे यथा विधि तथा तत्र ब्राह्मणयुर्वेदभारगैः ऋग्यजुस्साममन्त्रैश्चाभिषिक्तो मत्सरो भवद उशना सर्वकर्ता भूतेषां मध्ये प्रदा भवान् साक्षाद्योगी गणेशस्य महाभक्तो महामुनिः दैत्यादीनां स राजाभून् मत्सरः परवीरः शुशुभेतीव तेजस्वी मध्याह्नार्क इव श्रिया सर्वे स्वस्वगृहं जग्मुस्सनाथाश्च वयं कृताः शुक्रेणेदि वदन्तस्ते हर्षयुक्ता प्रजापदे गदे कियदिकाले चमत्सरत्समनो दधे ब्रह्माण्डजयने दुष्टो जुहाव सकलासुरान् आगतास्ते त्वराभाज किं कार्यं वदमानद तानुवाज जया काङ्क्षी त्रैलोक्यं वशमानये तस्य तद्वचनं श्रुत्वा हृष्टाः सर्वे महासुराः न मेख मेखसन्नादायि कलानां कलनात्मकैः शास्त्रास्त्राणि धृत्वा वाहनगा बभुः सन्नद्धाः सर्वभावेन चतुरङ्गबलान्विताः पदातयो ह्यसङ्ख्यादाना शस्त्रधरास्तथा प्रभो सिंधुरारुणबाला मुक्तकेश महाबलाड्डीड्डीय धिक्षा युद्धक शस्त्रु मलयुद्धे गदाुधे विशारदा का अस्त्रुद्ध विचारज्ञा निसृद्धा प्रादारका धूलिव्रजेन तेषां तु भास्करो निष्प्रभकृतः अग्रे दैत्यस्य सेनाया भूषणानि यथा बभुः तथा हस्तिसहस्राणां सहस्राणि ययुः पुरः धादुभिरञ्जिदान्येव नानाचित्रायर्महामुने सिन्दूरारुण बाल्यानि लसत्कुम्भधराणि च खण्डासान्द्रनिनादैश्च नादितानि त्वितस्ततः महावीराश्रितान्येव पूर्णानि चञ्चलाश्चैव पर्वता इव गिरीणां चैव दन्ताग्रायैर्भेदकानि प्रजापते शुण्डाभ्यर्वृक्षजालानां छेदकानि महान्ति च मदेनासिक्तनि भ्रमरैर्गुञ्चितानि च रणे शत्रुसहस्राणां नाशकाराणि नि सर्वशखा निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समन्तदः ततोश्वानामः सेना निःसृता बलवत्तराः चञ्चलावायुवेगाश्च तत्राश्वाः पूर्णभूषिताः चमरैर्विजिताश्चैव मनोवेगामहोबलाः उड्डीयोड्डीयधावन्त आकाशे वायवो यथा खुरापादैर्विस्फुलिङ्गान् प्रस्रवद इतस्ततः नाना शस्त्रधरास्तत्र दैत्यारेजुर्यथा खनाः कालस्य भयदा सर्वे विशारदाः अपाराश्च समारूढा दारुणा पाप निश्चया त्र कहिन्महाद करोह विस अजयनाधिस्ोवाकन विराजि महिषारूट काे व्याघ्रूठा महाबला सिंहशादूलवा विराजिताः खगवाह स्थापिचिषु वाहराजितासृता असुरामत्तु मिबो्यता तदोरथसमू रथिनो निसृता प्रभो अपाराश्च महाक्रोधारुणनेत्रा भयङ्कराः रथाश्वालङ्कृतास्तत्र मणिमुक्तादिभिः परैः नाना शस्त्रास्त्रभारैश्च पुरिदा संयुधाश्चदुरै सूतैर्महावीरैः समाश्रिताः सधा करयुधा केजिद्भृकैर्वैवाहिताः परे सिंहैर्गोभिर्गजैर्क्षैर्नाना पशुभिराबभुः तत्र वज्रसमाङ्गैश्च करैः शतमितैर्युदम् अलङ्कृतं रथं दैत्यो मत्सरत्स समारुहद तस्याग्रे तत्सुतौ शूरवश्वारूढौ वीरोचनादयो दैत्याः समन्ता जग्मुराजिषु पृथिव्यां तस्य सैन्यं तत्समुद्र इव सम्बभौ महारथ महावीरयुद्धभूषणभूषितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरसेनावर्णनं नाम पञ्चविंशोऽध्यायः ओम्